अथै नामन्ववेक्षस्व वात्मनः दुर्बलाचरिताम् राजन्नबलस्थैर्निषेविताम् यान्न कृष्णोऽनबीभत्सुर्नाभिमन्युर्न सृञ्जयाः न चाहमभिनन्दामि न च भवान् धर्मो धर्म इति सततं व्रतकर्षितः कच्चिद्राजन्न निर्वेदापन्नः क्लीब जीविकाम् दुर्मनुष्या हि निर्वेदमफलम् स्वार्थघातकम् अशक्ताश्रियमाहर्तुमात्मनः कुर्वते प्रियम् स भवान् दृष्टिमाञ्छक्तः पश्यन्नस्मासु पौरुषम् आदृशंस्य परो राजन्नानर्थमवबुध्यसे अस्मानमी धातराष्ट्राक्षममाणानलंसतः अशक्तानिव मन्यन्ते तद्दुःखन्नाह वेवधः त्र चेद्यमजिहर्तिशो हिवध श्रेयान्ेलोकान् लेमे अथवा वयमे वैतान्हत्य भरतर्षभ आददीमि गा सर्वा श्रेय ये सर्वथा कार्यमेतन्न स्वधर्ममनुतिष्ठताम् काङ्क्षताम् विपुलाम् कीर्तिम् वैरम् प्रतिचिकीर्षताम् आत्मार्थै युध्यमानानाम् विदिते कृत्यलक्षणे अन्यैरपिहृते राज्ये प्रशंसैव न